कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा यस नन्नाम तद्राजन्न धर्मः स कुधर्म तत् सर्वथा धर्म नित्यम् तु पुरुषम् धर्म दुर्बलम् त्यजतस्तात धर्मार्थौ प्रेतम् दुःखसुखे तथा यस्य धर्मो हि धर्मार्थम् क्लेशभाङ् न स पण्डितः न स धर्मस्य वेदार्थम् सूर्यस्यान्धः प्रभामिव यस्य चार्थार्थमेवार्थः स चनार्थस्य कोविदः रक्षेतमृतकौरण्ये को यथागास्तादृगेव सः अतिवेलम् हि योऽर्थार्थी नेतरावनुतिष्ठति सवध्यः सर्वभूतानाम् ब्रह्महेव जुगुप्सितः सततम् यश्च मित्राणि तस्य नश्यन्ति धर्मार्थाभ्याम् च तस्य धर्मार्थहीनस्य कामान्ते निधनम् ध्रुवम् कामतो रममाणस्य मीनस्येवाम्भसक्षये तस्माद्धर्मार्थयोर्नित्यम् न प्रमाद्यन्ते पण्डिताः प्रकृतिस्साहि कामस्य पावकस्यार निर्यथा सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः इतरेतरयोर्नीतौ विधिमेघोदधीयथा द्रव्यापर्श संयोगे या प्रीतिपजाते स कामश्चिकल शरीर